श्री श्रीरंगनाथपादुका सहस्रम पद्धति सेवेंटी पद्मगप्धति पादुकां पादुका पद्मिणी पदैकनीयदा तर पद्मीवा पसंदमालिका अधिवात्मनसं विचिन्त्यशौर्यः पदरक्षे पदपत्मसौकुमार्यं। परिपुष्यसिपत्मरागभासा पद्मरागभासा पदवीमाहिदपल्लवामिव त्वम् पदपल्लवसङ्गिभिः अनलेशयनं क्वचिन्मुरारेरविसंवादय शिवपादुगे त्वं मञ्जुभाषिणि विवृणोधिरङ्गपतिरत्नपादुगे त्वयि पद्मरागमणिपद्धतिशुभा निबिडोरुसङ्कटनपीडनक्षरन्मधुकैडभक्षदजपङ्गवासनाम् प्रदियन्तिरङ्गपदिपादुके जनास्तव पद्मरागमणिरश्मिसन्ततिम् अभिजग्मुषां त्वदनुभावखण्डितादकसञ्चयाद्विगलिदामसृक्षडाम् इन्द्रवज्रा पश्यन्दि रङ्गेश्वरपादुके त्वां पौराङ्गना स्पर्शिधरागबन्धाम् शृङ्गारयोनेर्ज्वलनस्य दीप्तैरङ्गारजालैरिव पद्मरागैः उपजाति अवैमि दोषापगमस्य हेतुं तमोपहां सम्भृदपद्मरागाम् अशेषवन्द्यां मणिपादुके त्वाम् रङ्गेशसूर्योदयपूर्वसन्ध्याम् अवाप्यपादावनिरङ्गभर्तुः पादाम्बुजे पल्लवसंस्तराभां त्वत्पद्मरागद्युदयो भजन्ते कालानलत्वं कलुषाम्बुधेर्नः निसर्गसिद्धं मणिपादरक्षे देवस्य रङ्गावसधप्रियस्य बालार्कवर्णाः पदपद्मरागं त्वत्पद्मरागाः पुनरुक्दयन्ति पदेन विश्वं मणिपादरक्षे पत्न्याः समं पालयतो मुरारेः परिकल्पयन्तिः प्रवालशोभां तव पद्मरागाः इन्द्रवज्र अर्चिष्मदी काञ्चनपादरक्षे प्रस्तौदिते पाडलरत्नपङ्क्तिः रेखा रथाङ्गस्य महप्रपञ्चं रङ्गेश पादाम्बुजमध्यभाजः उपजादि त्वयैव पादावनिशोणरत्नैर्बालातपं नूनमुदीरयन्त्या पद्मा पदेः पादतलप्ररूढं रेखाम्बुजं नित्यमभूतनिद्रं नित्यं निजालोकपथं गदानां श्रेयो दिशन्दीश्रितपद्मरागाम् महीयसि माधवपादरक्षे मन्यां महे मङ्गलदेवतां त्वां वसन्ततिलकं देवस्य रङ्गरसिकस्य विहारखेदोरात्मानमङ्घ्रिकमले विनिवेद्यपूर्वं प्रायो निवेदयसि शोणमणिप्रकाश्यै प्रत्यूष पद्मकलिकां पदरक्षिणित्वं प्रत्यस्य हविषः प्रणवेन देवि प्रक्षेपणाय परमार्थविदा मुनीनाम् प्राज्ञा मुकुन्दचरणावनि पद्मरागैः पर्याय पावकशिखां भवतीं प्रदीमः सम्बध्यते तव पदावनि पद्मरागैः प्रस्थानमाङ्गलिकहोम उदाशनश्रीः क्षीराहुदिर्भवति यत्र विकल्पगङ्गा रङ्गेश्वरस्य रुचिरा नखरश्मिधारा आमुञ्चदामरुणयावकपङ्गलक्ष्मीं शोणाश्मनां तव पदावनिकान्तियोगात् पद्मासहायपदपद्मनखाश्रयन्ते सन्ध्यानुरञ्चितसुधाकरबिम्बशोभां स्थाने तवाच्युतपदावनि पद्मरागास्तेजो मया प्रशमयन्ति तमो मदीयं चित्रं तदेतदिह यज्जनयन्ति नित्यं रागात्मकेन महसा रजसो निवृत्तिम् पद्माकरान्तरविकासिनिरङ्गभर्तुः पित्वा पदावनि मधूनि पदारविन्दे शोणोपलद्युतिमयीं सुभगप्रचारां मन्ये बिभर्षिमहतीं मदरागशोभाम् कादावनिप्रसृमरस्य कलेर्युगस्य प्रायेण सम्प्रति निवारयितुं प्रवेशं लाक्षारस्ैररुणरत्नमयूखलक्ष्यैः प्रायेण रञ्जयति पादसरोजयुग्मं सैरन्ध्रिकेव भवती मणिपादरक्षे रङ्गेशि दुर्विहरदो त्वत्पद्मरागकिरणचुरणाद्भजन्ते सन्ध्यात्तपान्तरिततारकपङ्क्तिलक्ष्मीं रङ्गाधिराजपदरक्षिणि बिभ्रतस्त्वां गङ्गातरङ्गविमले गिरिशस्य मौलौ संवर्धयन्ति महसा तव पद्मरागाशैलात्मजा शरणयावकपङ्गलक्ष्मीं मालिनी शरणमुपगतानां शर्वरीं मोहरूपां शमयितुमुदयस्तान्मन्महे बालसूर्यान् पदसरसिजयोगाद्रङ्गनाथस्य भूयः परिणमधरुणिम्नः पादुपे पद्मरागान् हरिपदरुचिराणां पादुके तावकानां मरुणमणिगणानां नूनमर्धेन्दुमौलिः प्रणदिसमयलग्नां वासनामेव धत्ते कलमगणिशकान्तिस्पर्भिणीभिर्जडाभिः प्रतिविहरणमेधे पादुके रङ्गभर्तुः पदकमलसगन्धा पद्मरागास्त्वदीयाः तरुणतपनमैत्रीमुद्वहद्भिर्मयूखैस्तलकमलविभूतिं स्थापयन्त्यव्यवस्था अयमनितरभोगान् रञ्जयन्विदरागा नरुणमणिगणानां तावकानां प्रकाशः पदरक्षे मधुरिपुपदरक्षे मङ्क्षुजाज्वल्यमानशलभयदि जनानां शाश्वतं पराशिं प्रचुरनिगमगन्धाः पादुके रङ्गभर्तुः पदकमलसमृद्धिं प्रत्यहं भावयन्तः दधति शकलयन्तो गाढमन्तस् मिश्रं समुचितमरुणत्वं तावकाः पत्मरागाः। मन्दाक्रान्ता लाक्षालक्ष्मी मधुररुचके रङ्गिणःपादरक्षे वक्त्राम्भोजे मदपरिणतिं पद्मरागद्वितिस्ते कर्णोपान्दे किसलयरुचिं देवी। सेवानतानां सीमन्ते च त्रिदशसुदृशां सौधि सिन्धूरशोभाम् आर्य अरुणमणयस्तवैदे हरिपदरागेण लब्धमहिमानः गमयन्ति चरणरक्षेद्युमणिगणं ज्योतिरिङ्खणताम् इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुका सहस्रे पद्मरागपद्मदिः सप्तदशी ओ